अर्थत्रयोदशाधिकशततमः सर्गः ततः शिरसि कृत्वा तु पादुके भरतस्तदा आरुरोहरथम् भ्रष्टः शत्रुघ्नसहितस्तदा वसिष्ठो वामदेवश्च जाबालिश्च दृढव्रतः अग्रतः प्रययुः सर्वे मन्त्रिणो मन्त्रपूजिताः मन्दाकिनीम् नदीम् रम्याम् प्राङ्मुखास्तेयुस्तदा प्रदक्षिणम् च कुर्वाणाश्चित्रकूटम् महागिरिं पश्यन्धातु सहस्राणि रम्यानि विविधानि च प्रययौ तस्य पार्श्वे न भरतस्तदा अदूराच्चित्रकूटस्य ददर्श भरतस्तदा आश्रमम् यत्र समुनिर्भरद्वाजः कृतालयः सतमाश्रममागम्य भरद्वाजस्य वीर्यवान् अवतीर्यरथात्पादौ भवन्दे कुलनन्दनः ततो हृष्टो भरद्वाजो भरतम् वाक्यमब्रवीत् अपि कृत्यम् कृतम् तातरामेण च समागतम् एवमुक्तः स ततो भरद्वाजेन धीमता प्रत्युवाच भरद्वाजं भरतो धर्मवत्सलः स याच्यमानो गुरुणा राघवः परमप्रीतो वसिष्ठम् वाक्यमब्रवीत् पितुः प्रतिज्ञाम् तामेव पालयिष्यामि तत्त्वतः चतुर्दश हि वर्षाणि या प्रतिज्ञापितुर्मम एवमुक्तो महाप्राज्ञोऽवसिष्ठः प्रत्युवाचः वाक्यज्ञो वाक्यकुशलम् राघवम् वचनम् महत् एते प्रयच्छ संव्रष्टः हेमभूषिते अयोध्या महाप्राज्योगेमको भविषेन राघव प्राख स्थित पादुके हेम विकते मम राजये दद निवृत् हम जा राण सुमहात्म्याम गा गृहवा पादुके शुभेतुवा शुभम वाक्य भरत से महात्म वरद्वाजः शुभतरम् मुनिर्वाक्यमुदाहरत् नैतच्चित्रम् न रव्याघ्रे शीलवृत्तविदाम्बरे यदार्यम् त्वयि तिष्ठेत्तु निम्नोत्सृष्टमिवोदकम् अनृणः स आमन्त्रयितुमारेभे चरणामुपगृह्य च तदः प्रदक्षिणम् कृत्वा भरद्वाजम् पुनः पुनः भरतस्तु ययौ श्रीमानयोध्याम् सह मन्त्रिभिः यानैश्च शकटैश्चैव हयैर्नागैश्च सा च मोः पुनर्निवृत्ता विस्तीर्णा भरतस्यानुयायिनी ततस्ते यमुनाम् दिव्याम् नदीम् तीर्तोोर्मिमालिनीम् ददृशुस्ताम् पुनः सर्वे गङ्गाम् शिवजलाम् नदीम् ताम् रम्यजलसम्पूर्णाम् सन्तीर्य सः बान्धवः शृङ्गवेरपुरम् रम्यम् प्रविवेशसससैनिकः शृङ्गवेरपुराद्भूय अयोध्याम् सन्ददर्शः अयोध्याम् तु तदा दृष्ट्वा पित्रा भ्रात्रा विवर्जिताम् भरतो दुःखसन्तप्तः सारथिम् चेदमब्रवीत् सारथे पश्य विध्वस्त अयोध्या न प्रकाशते निराकाराणि निरानन्दा दीना प्रतिहतः स्वरा इत्यादे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे त्रयोदशाधिकशततमः